श्रीमद्वाल्मीकीयरामायणे युद्धकाण्डम् अथ प्रथमः सर्गः श्रुत्वा हनूमतो वाक्यम् यथावदभिभाषितम् रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् कृतम् हनूमता कार्यम् सुमहद्भुवि दुर्लभम् मनसापि यदन्येन न शक्यम् न हि तम् परिपश्यामि यस्तरेतमहोदधिम् अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत् को विशेत् सुदुराधर्षाम् सुरक्षिताम् यो वीर्यबलसम्पन्नो न समस्याद्धनूमतः भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च यो हि भृत्यो नियुक्तः सन् कर्मणि दुष्करे कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् यो नियुक्तः परम् कार्यम् न कुर्या नृपतेः प्रियम् भृत्यो युक्तः समर्थश्च तमाहुर्मध्यमम् नरम् नियुक्तोतेः कार्यम् न कुर्याद्यः समाहितः भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम् तन्नियोगे नियुक्तेन कृतम् कृत्यम् हनूमता न चात्मा लघुताम् नीतः सुग्रीवश्चापि तोषितः अहम् च रघुवंशश्च लक्ष्मणश्च महाबलः मै देह्यादर्शनेनाद्यधर्मतः परिरक्षिताः इदम् तु मम दीनस्य मनोभूयः प्रकर्षति यदिहास्य प्रियाख्यातुर्न कुर्म सदृशम् एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिशस्वजे हनूमन्तम् कृतात्मानम् कृतकार्यमुपागतम् ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः हरिणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः सर्वथा सुकृतम् तावत् सीतायाः परिमार्गणम् सागरम् तु समासाद्य पुनर्नष्टम् मनो मम कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः हरयो दक्षिणम् पारम् गमिष्यन्ति समागताः यद्यप्येष वृत्तान्तो वैदेह्यागदितो मम समुद्रपारगमने हरीणाम् किमिवोत्तरं इत्युक्त्वा शोकसम्भ्रान्तो रामः शत्रुनिबर्हणः महाबाहुस्ततो ध्यानमुपागमत् शे श्रीमद्राणे वाल्मीक आदि का्युद्धकांडे प्रथम सर्ग